अथ चतुर्दशोऽध्यायः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् यज्ञात्वा मुनयः गताः इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः सर्गेऽपि नोपजायन्ते प्रलयेन व्यथन्ति च मम यो निर्महद्ब्रह्म तस्मिन् ततो भवति भारत सर्वयोनिशुकौन्ते य मूर्तयः सम्भवन्ति याः तासाम् ब्रह्म सत्वं रजस्तम इति गुणाः देहे देहि नमव्ययम् तत्र स त्वम् निर्मलत्वात् प्रकाशकमनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ रजोरागात्मकम् विद्धि तृष्णासङ्गसमुद्भवम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् तमस्त्वज्ञानजम् विद्धि मोहनं सर्वदेहिना प्रमादालस्य निद्राभिः तन्निबध्नाति भारत सत्वं सुखे सञ्जयति रजः भारत ज्ञानमावृत्यतु तमः प्रमादे सञ्जयत्युत रजस्तमश्चाभिभूय सत्वं भवति भारत रजसत्त्वम् तमश्चैव तमः सत्त्वम् रजस्तथा सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ज्ञान्यदा तदा विद्याद् विवृद्धम् सत्त्वमित्युत लोभप्रवृत्तिरारम्भः कर्मणामशमस्पृह रजस्येतानि जायन्ते विवृद्धे भरतर्षभा अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे कुरु यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदोत्तमविदां लोका अमलान् प्रतिपद्यते रजसि प्रलयम् गत्वा जायते तथा प्रलेनस्तमसि मूढयोनिषु जायते कर्मणः सात्विकं निर्मलं फलम् रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम् सत्त्वात्सञ्जायते ज्ञानम् रजसो लोभ एव च प्रमादमोऽहं तमसः भवतो ज्ञानमेव ऊर्ध्वम् गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः नान्यङ्गुणेभ्य गुणेभ्यकर्तारं, यदा द्रष्टानुपश्यति गुणेभ्यश्च परम् वेत्ति मद्भावं मद्भावम् गुणान गुणान् एतानतीत्यत्रीन् देही देहसमुद्भव जन्म मृत्युजरा दुःखैः विमुक्तोऽमृतमश्नुते अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणानेता अतीतो भवति प्रभो किमाचारकथञ्चैता त्रीन् गुणान् अतिवत्तते श्रीभगवानुवाच प्रकाशञ्च प्रवृत्तिम् च मोहमेव च पाण्डव न ननिवृत्तानि निवृत्तानि काङ्क्षति उदासीनवदासीनः गुणैर्यो न विचाल्यते गुणावर्तन्त इत्येव योऽवतिष्ठति नेङ्गते समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः तुल्यप्रिया प्रियो धीरः तुल्यनिन्दात्मसंस्तुतिः मानापमानयोस्तुल्यः तुल्यो मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातेतत्स भक्तियोगेन सेवते सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाहम् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः